सहनाभवतो सह नौ भुरक्तो सह वीर्यम् करवामहे तेजस्मिन् अवधेतमस्तु मा विद्विषामहे ओम् शान्तिः शान्तिः शान्तिः ब्रह्मविदाप्नोति परम् त्वदेशाभ्युक्ता सत्यम् ज्ञानमनन्दम् ब्रह्मनिहितम् गुहायाम् परमे व्योमन् सर्वान् कामान् सः ब्रह्मणानि पश्चितेति कस्माद्वाये तस्मादात्मनः आकाशः सम्भूतः आकाशाद्वायोः वायोरग्नेः अग्नेरापः अभ्यपृथिवे पृथिव्या ोशयः वोड़ वोढधेभ्यो अन्नम् अह्नात् अस्य एकमेव शिरः अयम् दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदम् वृक्षम् प्रदिष्टाग भवति अन्ना द्वये प्रजा प्रजायन्ते प्रजा याः काश्च पृथिवेः जीवन्ते अथैनदपि अन्त्यम् ततः अन्नगम्यभोदानाम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वम् वैदेन्नमाप्नुवन्ति एन्नम् ब्रह्मपासृते अन्नकम् ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्ना भूतानि जायन्ते वर्धन्ते अद्यदे त्रिषभूतानि तस्मादन्नम् तदुच्यत इति यस्माद्स्मादन्नदसमयात् अन्यान्वर समयादे प्राणमयः तेनेश पूर्णः समागेश पुरुषविध एव तस्य पुरुषविध अन्वयम् पुरुषविधः तस्य प्राण एव ज्ञानो दक्षिणपक्षः अपानोत्तरपक्षः आकाशः आत्मा पृथिवी पुच्छम् परप्येष श्लोको भवति प्राणन्दे वा नु प्राणन्ति मनुष्या पशवश्चये प्राणादिभूता नामायुः अस्मात् सर्वायुषमुच्यते सर्वमेवताय विजन्ते हे प्राणम् ब्रह्मोपासते प्राणोदिभूता नामायुः अस्मात्सर्वायुषमुच्यत इति तस्य इष एव शारीर आत्मा यः कूर्वस्याेदस्मा प्राणमयात् अन्यान्तः तेनैष पूर्णः स बाले च पुरुषविध एव तस्य पुरुषविधराम् अन्वयम् पुरुषविधः तस्य यजुरेव शिरः हृद्दक्षिणः पक्षः सामोत्तरः आदेश आत्मा सर्वाङ्गिरस पुच्छम् प्रतिष्ठा ते श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसादः आनन्दम् ब्रह्म विद्वान् न विभेति कदा जनेति दे, तस्यैष देव शारीर आत्मा यः पूर्वस्य तस्माद्वारे अन्यान्तरः आत्मा विज्ञानमयः पूर्णः सभाेशपुरुषविधरेव तस्य पुरुषविधता अन्वयम् पुरुषविधः कस्य श्रद्धैव दक्षिणप्रकटः सत्यमुत्तरपक्षः योग आत्मा महः पुच्छम् प्रतिष्ठलोको भवति यज्ञन्त कर्माणि तनुतेऽपि च विज्ञानम् देवाः सर्वे ब्रह्म ज्येष्ठमुपासदे विज्ञानम् ब्रह्मजे द्वै तस्माच्छैन्न प्रमाद्यते शरीरे बात्मनो हित्वा सर्वान् कामान् समश्मृतयि तस्यैकमेव शारीर आत्मा नः तस्माद्बाले तस्माद् विज्ञानमयात् अन्यान्तर आत्मानन्दमयः तेनेज पूर्णः सवारे च पुरुषविध एव अस्य पुरुषमिधताम् अन्वयम् पुरुषमिधः तस्य प्रियमेवषयः मोदो दक्षिणपक्षः प्रमोदमुत्तरपक्षः आनन्द आत्मा ब्रह्मगुच्छम् ोको भवति असन्नेमतः भवति असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद सन्तमेन तस्यैकदेव शारीर आत्मा यः पूर्वस्य अथ को न प्रश्नाः उत विद्वानमम् लोकम् प्रेत्य कश्चन गच्छति आहो विद्वानमम् लोकम् प्रेत्यक्षमश्नुता सोऽगामे बहुस्याम् प्रजाये यत् सतपोदप्यत सतपस्तप्त्वादगम् सर्वमसजत यदिदम् किञ्च तत्सृष्ट्वा तदेव न प्राविशत् तद न प्रविश्य सत्यर्चा भवति निरुक्तम् च निरुक्तम् च निलयनम् च निलयनम् च विज्ञानम् चाविज्ञानम् च सत्यम् च सत्यमभवत् यदिदङ्क्यम् च तत्सत्यमित्याचक्षते तदेषा इदमग्रासीत् तथा वेशदजायत तदा त्वानज्ञस्वयमकुरुत तस्मात्तत्सुतमुच्यतमिति यद्वैतत् सुखतम् न स्वेदः लब्ध्वानन्दे भवते को ह्येवान्या प्राण्यात् यदेश आकाश आनन्दो न स्यात् एष केवानन्दयाति यदा भयम् प्रतिष्ठाम् विन्दते अततो भयम् गतो यदा केशमन्तरम् कुरुते अजरस्य भयम् भवते तत्रैव भयम् विजयामन्वानस्य तदप्यजश्वा भवति पवदे भेषोदय सूर्यः भेषास्मादग्निश्चन्द्रश्च मृत्यर्धावति पञ्चमगिते कैशानन्दस्य मे मापुंसा भवति युवा स्यात् साधुयुवाध्यायकः आजष्ठो दशिष्ठो वरिष्ठः तस्येदम् पृथिवेदर्वा विप्रत्योर्णा स्यात् तदेको मानुष आनन्दः एकेतम् मानुष आनन्दाः एको मनुष्यकम् सर्वाणामानन्दः श्रोत्रियस्तु हे एतदम् मनुष्यगन् सर्वानामानन्दाः स्वरेको देवगन्धर्वाणामानन्दः श्रोत्रियश्च जागामः तस्या हे एतदम् देवगन्धर्वानामानन्दाः स्वृणाञ्जरलोकलोकानामानन्दः श्रोत्रियश्च जागामः तस्या हे एतदम् पितृणाञ्जिरलोकलोकानामानन्दाः तरेखानजानाम् देवानामानन्दः स्वस्त्रिश्च रामः तस्या हे ले सदमाजानजानाम् देवानामानन्दाः परेकः कर्मदेवानाम् देवानामानन्दः देवाना हे कर्मणा देवानपियन्ते शोस्त्रिरे च राजा गामः तस्य हे ले सदम् कर्मदेवानाम् देवानामानन्दाः हरेको देवानामानन्दः श्रोत्रियशिरागामः तस्या हे लेतनम् देवानामानन्दाः हरेख्यानन्दः श्रोत्रियशिरागामः तस्या हे लेतनमिन्द्रस्यानन्दाः सरेको बृहस्पतेरानन्दः श्रोत्रियशिरागामः तस्या हे लेधनम् बृहस्पतेरानन्दाः हरेखः प्रजापतेरानन्दः श्रोत्रियश्रिरागामः तस्य हेधनम् प्रजापतेरानन्दाः स्वरेखो ब्रह्मणानन्दः श्रोत्रियश्रिरागामः तस्या स यष्टायम् पुरुषे यष्टादापादित्ये स लेखः स एवंवि अस्माल्लोकात् प्रेत्य हे तमन्नमयमात्मानवृथम् ग्रामति एतम् प्राणमयमात्मानम् पदम् क्रामदे एतम् मनोमयमात्मानमुपथम् क्रामदे एतम् विज्ञानमयमात्मानमुपथम् क्रामदे श्लोको भवते यतो वाचो निवर्तन्ते अप्राप्यमनसादः आनन्दम् ब्रह्मणो विद्वान् कुतश्च नयते एतकम् न वामन तपति किमहकम् लाधुना करवम् किमहम् पापमकरवमिति आत्मानज्ञ स्पृणुते उभेणेते आत्मानज्ञस्पृणुते यदेवम् वेद यद्युपरिषते सह न भवतो सह नो भुरक्तो सह वीर्यम् करमावहैमस्तुमाविद्विषाभैः न्तिशान्तिशान्तिः ओ